द्रुपद उवाच अहोरूपमहो धैर्यमहो वीर्यं च शिक्षितम् चिन्तयामि दिवारात्रमर्जुनं प्रतिबान्धवाः भ्रातृभिः सहितो मात्रा सोदह्यत हुताशने किमाश्चर्यमिदं लोके कालो हि दुरतिक्रमः मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यामि साम्प्रतम् अन्तर्गतेन दुःखेन दह्यमानो याचोपयाजौ सकृत्य याचितौ तौ मया भारद्वाजस्य हन्तारम् देवीम् चाप्यर्जुनस्य वै लोकस्तद्वेद यच्चैव तथा याचेन वै श्रुतम् याजेन पुत्र कामीयम् हुत्वा चोत्पादितावुभौ दृष्टध्युम्नश्च कृष्णा च मम तुष्टिकराभौ करिष्यामि ते नष्टाः ब्राह्मण उवाच इत्येवमुक्त्वा पाञ्चालः शुशोच परमाधुरः दृष्ट्वा शोचन्तमत्यर्थे पाञ्चालगुरुडब्रवीत् गुरुर्वाच वृद्धानुशासने सक्ता पाण्डवा धर्मचारिणः तादृशा न विनश्यन्ति नैव यान्तिपराभवम् मया दृष्टमिदं सत्यं श्रृणुष्व मनुजाधिप ब्राह्मणैः कथितम् वेदेषु च मया श्रुतं बृहस्पतिमुखे नाथा पौलोम्याच पुरा दर्शितः उपश्रुतिर्महाराजा पाण्डवार्थे मया श्रुता यत्र वा तत्र जीवन्ति पाण्डवास्तेन संशयः मया दृष्टानि लिङ्गानि ध्रुवमेष्यन्ति पाण्डवाः यन्निमित्तमिहा यान्ति तच्छृणुष्व नराधिपा स्वयंवरः क्षत्रियाणां कन्यादाने प्रदर्शितः स्वयंवरस्तु नगरे घुष्यतां राजसत्तमां यत्र वा निव सन्तस्ते पाण्डवाः पृथया सः दूरस्था समीपस्थाः स्वर्गस्था पाण्डवाः श्रुत्वा स्वयंवरं राजन् समेष्यन्ति तस्मात् स्वयंवरो राजन् घुष्यतां